श्रीहरये नमः अत तृतीयोऽध्यायः श्रीशुक उवाच एवमेतन्निगदितं पृष्ट्वान् यद्भवान् मम नृणाङ्ग्यन्मर्यमाणानां मनुष्येषु मनीषिणा ब्रह्मवर्चस्स कामस्तु यजेत ब्रह्मणस्पतिम् इन्द्रं इन्द्रियकामस्तु प्रजाकामः प्रजापतिन् देवी मायां तु श्रीकामस्तेजस्कामो विभावसुं वसुकामो वसून् रुद्रान् वीर्यकामोत वीर्यवान् अन्नाद्यकामस्तवतिं स्वर्गकामो दिदेसुतान् विश्वान् देवान् राज्यकामसाध्यान् संसाधको विशाम् आयुष्कामोऽस्विनौ देवौ पुष्टिकामयिलां यजेत् प्रतिष्ठा कामः पुरुषो रोदसी लोकमातरौ रूभाभिकामो गन्धर्वां स्त्रीकामोऽप्सर्वशीम् आदि आदिपद्यकामः यजते परमेष्टिनं यज्ञं यजेत्यसस्काम कोशकामः प्रचेतसम् विद्याकामस्तु गिरिशं दाम्भत्यार्थे वुमां सतीं धर्मार्थ उत्तमश्लोकं तन्तुं तन्द्वन् पितॄन् यजेत् रक्षाकामः पुण्यजनानोजस्कामो राज्यकामो मनो देवान् निरृतिं त्वब्भिचरन् यजेत् कामकामो यजेत् सोमम् अकामः पुरुषं परम् अकामः सर्वकामो वा मोक्षकामबुदारधीहे तीव्रेण भक्तियोगेन यजेत पुरुषं परम् एतावानेव वा यजतामिह निःश्रेयः सोधयः भगवत्य चलो भागवत यद्भागवतसङ्गतः ज्ञानं यथा प्रतिनिवृन्तगुणोर्मिशक्रम् आत्मप्रसादभुत यत्र गुणेष्व सङ्घः कैवल्यसम्मदबत स्वत भक्तियोगः को निर्वृतो हरिकथा सुरतिं न कुर्यात् सौनक त्यभि व्याहृतं राजनिशंयभरदर्शभः किमन्यत् पृष्टवान् भूयो वैयास किं ऋषिं कविम् एतत् शुश्रूषतां विद्वन्सूतनोऽर्हसि भाषितुं कथा हरिकथो दर्गास्तत्सथांश्युसदशि भागवतो राजा पाण्डवे यो महारतः बालक्रीडनकैक्रीडन् कृष्णक्रीडां य आददे वैयासखिश्च भगवान् वासुदेव परायणः उरुघाय गुणो धारा सतां स्युर्हि समागमे आयुर्हरति वै पुंसाम् उद्यन्नस्तं तस्यर्थे यक्षणो नीत उत्तमश्लोकवार्तया तरव किं न जीवन्ति भस्त्रा किं न स्वसन्त्युत न घातन्ति किं ग्रामे पसवो परे स्वविपराहोष्टकरैः संस्तुतः पुरुषः पशुः न भेतो जातु नाम विलेभदोरुग्रमविक्रमान्ये न शुण्वतः कर्णपुटे नरस्य जिह्वासति धार्दुरिकेवसूतनश्शोभायत्युरु गायघाताः भारः परं पट्टकिरीडजुष्टम् सा वौ करौ नोकुरुतः सपर्यां हरेर्लसत्काञ्जनकङ्कणौ वा बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये पादौ नृणां तौ धृजन्मभाज क्षेत्राणि नानौ व्रजतो हरेर्यौ जीवञ्चवो भागवधाङ्क्रिरेणं न जातुमर्त्यो विलभेत यस्तु श्रीविष्णुपद्यामनुजस्तुलस्या स्वसंसवो यस्तु न वेदगन्धं ततस्मसारं कृतयं भतेधं यद्गृह्यमाणैर्हरिनामधेयैः न विक्रियेतात यथा विकारो नेत्रे जलं गात्ररुहेषु हर्षः अधा विदेह्यङ्गमनोऽनुकूलं प्रभाषसे भागवतः प्रधानः यदाहवैयासकिर आत्मविद्या विशारदो नृपथिं साधु भ्रष्टः इति श्रीमद्भगवते महापुराणे द्वितीयस्कन्ते तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराजिके जयम्